नारदपुराणम् पूर्वार्धम् अध्यायम् 76 नारद उवाच कार्तवीर्यप्रभृतयो नृपा बहुविधा भुवि जायन्ते प्रलीयन्ते स्वस्वकर्मानुसारदः राजवर्यो राजवर्योऽसौ लोके सेव्यत्वमागतः समुल्लङ्घ्य नृपान्यानेदन्मेनुदसंशयं सनत्कुमार उवाच शृणु नारदवक्ष्यामि सन्देहविनिवृत्तये यथा सेव्यत्वमापन्नकार्तव्येज्यार्जुनो भुवि यः सुदर्शनचक्रस्यावतारपृथिवीतले दत्तात्रेयम् समाराध्य लब्धवां स्तेज उत्तमम् तस्य क्षितीश्वरेन्द्रस्य स्मरणादेव नारद शत्रूञ्जयदि सङ्ग्रामे नष्टम् प्राप्नोति सत्वरं तेनास्य मन्त्रपूजादि सर्वतन्त्रेषु गोपितं तुभ्यं प्रकाश इष्येहं सर्वसिद्धि प्रदायकम् वनितारयुता रौद्रीलक्ष्मीरग्नीं दुःशान्तियुग वेधाधरेन्दुशान्त्याढ्यो निद्रया शाग्निबिन्दुयुग पाशो मायाङ्गुशम्पद्मा वर्मास्त्रे कार्तवीपदं रेफो वा त्यास नो नन्दो वाक्निजौ कर्णसंस्थितौ मेषसदीर्घपवनो मनुरुक्तो हृदं तिमहा ऊनर्विशदि वर्णोऽयं तारादिर्नखवर्णकैः दत्तात्रेयो मुनिचास्यच्छन्दो नोष्टुबुधा हृदं पार्थवीर्यार्जुनो देवो बीजशक्तिर्ध्रुवश्च हृद शेषाढ्यबीजयुक्तेन हृदयं विन्यस्ये दधः शान्तियुक्तचतुर्धेन कामाद्येन शिरोङ्गकं इन्द्वाढ्यं वाम कर्णाद्य माययोर्विषयुक्तया शिखा मङ्गुशपद्माभ्यां सभाभ्यां वर्मविन्यसेत् वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः हृदये जठरे नाभौ जठरे गुह्यदेशदः दक्षपादे वामपादे सब्धिनिजानुनि जङ्घयोः विन्यस्य बीजदशकम् मस्तके चललाटके प्रणवदयगम साराद्यानधेशा मस्तलाटक्रुवो श्रुत्योस्तवाक्नोर्नसी वक् गले सकेम्रेण सर्वांगे कृवकमादृत सर्वेष्टसिद्धयेध्यायेत्कार्तवीर्यं जनेश्वरम् उद्यदर्कसहस्राभं सर्वभूपदिवन्दितं दोर्भि पञ्चाशतादक्षैर्बाणान्वामैर्धनुंषि च दधं स्वर्णमालाढ्यं रक्तवस्त्रसमावृतम् शक्रावतारं श्रीविष्णोऽध्यायेदर्जुनभूपदिं लक्षमेकं जपेन्मन्द्रं दशांशं जिहुयातिलैः सतण्डुलैः पायसेन विष्णुपीठे यजस्तूतं षड्कोणेषु षडङ्गानि ततो दिक्षु विविक्षु चौरमदविभञ्जनं मारीमदविभञ्जनम् हरिमदविभञ्जनं दैत्यमदविभञ्जनं दुष्टनाश्यं दुःखनाश्यं दुरितापद्विनाशकं दिक्ष्वष्टयपूज्या प्राज्या दिक्ष्वसितप्रभाः क्षेमङ्करी वश्यकरी श्रीकरी च यशस्करी आयुकरी तथा प्रज्ञाकरी विद्याकरी पुनः धन कर्याष्टमी पश्चाल्लोकेशा अस्त्रसंयुदा एवं संसाधितो मन्द्रः प्रयोगार्थप्रजायते कार्तवीर्यार्जुनस्याध पूज्यन्द्रमिहोच्यते स्वबीजानङ्गध्रुव वाक् दिग्दलं लिखेद आरादिवर्मान्तधलं शेषवर्णधलान्तरम् ऊष्मान्द्यस्वर किञ्जल्कं शेषार्णैपरिवेष्टितं कोणालङ्कृतभूतार्णभूगृहं यन्त्रमीषितुः लिखित्वा यन्त्रमादराद तत्र कुम्भं प्रतिष्ठाप्य तत्र वाह्यार्चयेन्नृपम् स्पृष्ट्वा कुम्भं जपेन्मन्त्रं सहस्रं विजितेन्द्रियः अभीषिं चेत्तदम्भोऽभिप्रियं सर्वेष्टसिद्धये पुत्रान्यशोरोगानाशमायुस्वजनरञ्चनं वाक्सिद्धिं सुदृश्य कुम्भाभिषिक्तो लभदे नरः शत्रूपद्रव आपन्ने ग्रामे वा पुडभेदने पम्ये दिदं सर्ष पारिष्टल यन्त्रं शत्रुभिधिनिवृत्तये सर्षपारिष्ठलशुनकार्पासैर्मार्यदे रिपुः दत्तरैस्तभ्यदे निम्बैर्द्वेष्यदे वश्यदेऽम्बुजैः उच्चाटने विभेदस्य भी समिद्भिः करस्य च कडुतैलमहिष्याज्ञैर्होमद्रव्याञ्जनं स्मृतं य वै हुदे श्रियप्राप्तिस्तिलैराज्यैरकक्षयः तिलतण्डुलसिद्धार्थजालैर्वश्यो नृपो भवेद मार्गार्कधूर्वाणाम् ोमो लक्ष्मीप्रदो कनुद स्त्रीवश्यकृत् प्रियङ्गूणां मुराणां भूदशान्दिदः अश्वो दुम्बरप्लक्षवडबिल्वसमुद्भवाः समेधो लभदे हुत्वा पुत्रानायुर्धनं सुखम् नर्मोकेमसिद्धार्थलवणैश्चौरनाशनं रो जनागोमयैस्तम्भो भूप्राप्तिशालिभिर्हृदैः संख्यादु सर्वत्र सहस्रादयुतावधि प्रकल्पनीया मन्त्रज्ञै लाखवाद। कार्तवीर्यस्य मन्त्राणामुच्य दे लक्षणम् बुधाः कार्तवीर्यार्जुनम् खेदम् सर्वमन्त्रेषु योजयेद स्वबीजाद्यो दशार्णोऽसौ स्व� mm. अन्ये नव शिवाक्षराः आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईडितः स्वकामाभ्याम् तृतीयोऽसौ स्वभ्रूभ्यां तु चतुर्थकः स्वपाशाभ्यां पञ्चमोऽसौ षष्ठस्वेन च मायया स्वाङ्कुशाभ्यां सप्तमस्यात्स्वरमाभ्यामधाष्टमः स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामधामः द्वितीयादिनवान्तेषु बीजयो स्याद्व्यतिक्रमः मन्त्रे द्वदशमे वर्णा नव वर्मास्त्रमध्यगाः मन्त्रवर्येषु स्वानुकूलम् अनुं भजेत येषामाद्य विराजन्दोऽन्येषु तिष्ठुबुधा हृदं दशमन्त्रा प्रोक्ता यदा स्युप्रणवादिकाः तदा दिमशिवार्णस्याधन्ये दुग्द्वादशाक्षराः त्रिष्टुपुच्छन्धस्तथाद्ये स्यादन्येषु जगती मदा एवं विंशतिमन्त्राणां यजनं पूर्ववन्मदम् दीर्घाढ्यमूलबीजयनकुर्यादेषां षडङ्गकम् तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रढद्वयं चतुर्दश्चार्णो मन्त्रो यमसेज्य पूर्ववन्मद भूनेत्रसमनेत्राक्षि वर्णेरस्याङ्गपञ्चकं तारो हृद्भगवान् गेन्धकार्तवीर्यार्जुनस्तथा वर्मास्त प्रोक्तो वर्मास्ताग्निप्रियमन्त्रप्रोक्तो वेद सप्त युक्माक्षि युग्माक्षिवर्णै पञ्चाङ्गकं मनोहो नमो भगवते श्रीदि कार्तवीर्यार्जुनाय च सर्वदुष्टान्तकायेधि तपोबलपराक्रमः परिपालितसप्तान्ते द्वीपाय सर्वरापदम् जन्यचूडामणां ते ये सहस्र महाशक्तिमदेतदः सहस्रदहनप्रान्ते वर्माश्रान्तो महामनुः त्रिषष्टिवर्णवान्प्रोक्तस्मरमात्सर्वविघ्नहृद राजन्यक्रवर्ती च वीरशुरस्तृतीयकः माहिष्मदीपदि पश्चाञ्च चतुर्धसमुदीरिदः रेवाम्बुपरितृप्तश्च काणो हस्तप्रबाधितः दशास्यतिज षड्भिः स्यात्पदैर्नेतैः षडङ्गकं सिञ्च्यमानं युवधिभि क्रीडन्तं नर्मदा जले हस्तैर्जलौधं रुं धं धं ध्यायेन्मत्तं ध्यात्वा युधं भजे धन्यत् पूर्ववद पूर्वन्तु प्रजपे लक्षम् पूजायोगश्च पूर्ववद अर्थवीज्यार्जुनो नाम राजा बाहुसहस्रवान् तस्य स्मरणादेव हृदम् नष्टम् च संवदे लभ्यते मन्त्रपर्योऽयम् द्वात्रिंशद्वर्णसंयुधः पादै सर्वेण पञ्चाङ्गम् ध्यानभूजादिपूर्ववद कार्तवीर्याय शब्दान्ते विद्महे पदमुञ्जरेदन् महावीर्याय वर्णान्ते धीमहीतिपदं वदेद तन्नोऽर्जुनं प्रवर्णान्ते चोदयात् पदमीरयेद गायत्र्येशार्जुनस्योक्ता प्रयोगादौ जपेत्तुताम् अनुष्टौभं मनुं रात्रौ जपदां चौरसं चयाः पलायन्दे गृहाद्दूरं तर्पणा द्रवणादभि अधोद्दीपविधिं वक्ष्ये कातवीर्यः प्रियङ्करम् वैशाखे श्रावणे मार्गे कार्तिकाश्विनपौषधः माघ फल्गुनयोर्मासोद्दीपारम्भं समाचरेद तिद्धौ रक्त्राविहीनायां वारे शनिकुजौ विना आस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे द्वि दैवते च रोहिण्यां दीपारम्भो हितावहः चरमे च व्यधिपादे धृतौ वृद्धौ सुकर्मणि प्रीतौ हर्षं शोभना युष्मतोरपि करणे विष्टिरहिते ग्रहणेऽर्धोदयादिषु योगेषु रात्रौ पूर्वाह्ने दीपारम्भकृतशुभः कार्तिके शुक्लसप्तम्यां निषीधे दीपशोभनः यदि तत्र रवेर्वारश्रवणं भं च दुर्लभम् अत्यावश्यककार्येषु मासादीनां न आद्ये स्यु पोष्यनियतो ब्रह्मचारी सपीतकैः प्रातः शुद्धभूमौ लिप्तायां गोमयोदकैः प्राणानायम्यसङ्कल्प्य न्यासान् पूर्वोद्विधांश्चरेद षट्कोणं रजयेद्भूमौ रक्तचन्दनतण्डुलैः अधस्मरं समालिख्य षट्कोणेषु समालिखेद नवार्णार्वेष्टयेत् तञ्च त्रिकोणं तद्बहिः पुनः एवं विलिखिते यन्द्रे निदध्यादीपभाजनं स्वर्णजम् रचतोद्धम् वा साम्रजम् तदभावदः कांस्यपात्रं मृण्मयं च कनिष्ठं लोभजं मृदौ शान्तये मुद्गचूर्णोद्धं सम्धौ गोधूमचूर्णजम् आज्ये फलसहस्रे तु पात्रं शतफलम् स्मृतम् आज्ये युधफले पात्रम् फल पञ्चशदस्मृतम् पञ्चसप्ततिसङ्ख्ये धु पात्रं षष्टिफलम् स्मृतम् त्रिसाहस्रीकृतफले शर्करा फल भाजनं द्विसाह्र्याम् द्विशतमितम् च भाजनमिष्यदे सदेक्षिचरसम् ्यादमेवमन्यत्र कल्पयेद् नित्यदीपे वह्नि फलम् पात्रमाज्यम् फलं स्मृतम् एवम् पात्रम् प्रदिष्ठाप्यवर्तिसूत्रोद्धिताः क्षिपेद् एका तिस्रोऽधवा पञ्चसप्ताभ्याविषमा अपि तिधिमानाभासहस्रम् तन्तुसङ्ख्याविनिर्मिता गोघृदं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितं सहस्रफलसङ्ख्यादिदशांशं कार्यगौरवाद सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलां तदर्थां वा तदर्थां वा सूक्ष्माग्रां स्थूलमूलिकां विमुञ्चेद्दक्षिणे पात्रमध्ये चान्द्रे कृताग्रिकाम् पात्रदक्षिणदिग्देशे मुक्त्वां गुलचतुष्टयम् अधोग्रां दक्षिणाधारां निखने चुरिकां शुभं दीपं प्रज्वालये तत्र गणेशस्मृतिपूर्वकं दीपात् पूर्वत्र दिग्भागे सर्वतो भद्रमण्डले तण्डुलाष्टदले वापि विधि स्थापयेद्धुडम् तत्र बाह्यनृपाधीशम् पूजयेत् पूर्ववत्सुभिः जलाक्षरान्समादाय दीपं सङ्कल्पयेत् ततः दीपसङ्कल्पमन्त्रोऽयं कथ्यते द्विषुभूमिदः प्रणवपाश माये च सिका कार्ताक्षराणि च वीर्यार्जुनाय मा भागवे इति वर्णान्ते सहस्रपदमुच्चरेत् क्रदुदीक्षितहस्ताय दत्तात्रेयप्रियाय च आत्रेयाय नुसूयान्ते गर्भरत्नाय तत्परं नमोऽ ग्रीवामकर्णेन्दुस्थितौपास्य इमं ततः दीपं गृहाणा अमुकं रक्ष रक्षपदं पुनः दुष्टान्नाश्रयुग्मं स्यात्तथा पादयकादय शत्रून् जहिद्वयं मायातारस्वं बीजमात्मभूः वह्निप्रिया अनेनाथ दीपवर्येण पश्चिमा नामुकं रक्ष अमु कान्देवरप्रद मायाकाशद्वयं वामनेत्रचन्द्रयुधं शिवा वेदादिकाम चामुण्डाः स्वाहादु हूस बिन्दुकौ प्रणवोऽग्निप्रियामन्द्रो नेत्रबाणाधराक्षरः दत्तात्रेयो मुनिर्मालामन्द्रस्य परिकीर्तितः चन्द्रोमिदं कार्त वीर्यार्जुनो देवोऽखिलाप्तिकृत चामुण्डया षडङ्गानि चरेत् षड् दीर्घयुक्तया ज्ञात्वा देवं ततो मन्त्रं पठित्वान्दे क्षिपेज्जलं गोविन्दाड्यो हलि सेन्धुश्चामुण्डा बीजमीरिदं ततो नवाक्षरं मन्त्रं सहस्रं तत्पुरो जपेद तारो नन्दो बिन्दुयुक्तो मायास्वं वामनेत्रयुग कूर्माग्नीशाी बिन्द्वाढ्यौ वह्निजायाङ्कुशं ध्रुवं ऋषिपूर्वोदितो नुष्टुप्न्तोऽन्यत्पूर्ववत्पुनः सहस्रं मन्त्रराज्यं च जपित्वा कवचं पठेद एवं दीपप्रधानस्य कर्ताप्नोत्यखिलेप्सिदं दीपप्रबोधकाले दु वर्जयेदशुभां गिरम् विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितं शूद्राणां प्रध्यमं प्रोक्तं ्लच्छस्य वधबन्धनम् आह्वो त्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहं दीपज्वाला समासिद्ध्यैवक्रानिषविधायिनी शब्दा भयदा कर्तुरुज्ज्वला सुखदा मदा कृष्णाशत्रुभयोत्पत्ते त्वमं कीपशुनाशिनी कृदे दीपे यदा पात्रं भग्नं दृश्यते दैवतः पक्षादर्वाक्तदा गच्छेद्यजमानो यमालयं वर्त्यतरं यदा कुर्यात् कार्यं सिध्येद्विलम्बतः नेत्रहीनो भवेत्कर्ता तास्मिन् दीपान्तरे कृदे अशुचिस्पर्शने व्याधिर्दीपनाशेतु चौरभीः स्वमार्जाराकुसंस्पर्शे भवेद् भूपतितो भयं रात्रारम्भे वसुफलैकृतो दीपोऽखिलेष्ठदः तस्माद्दीपप्रयत्नेन रक्षणीयोऽन्तरायधः आस माप्ते प्रगुर्वीद ब्रह्मचर्यं च भूषयः स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत् जपेत् सहस्रम् प्रत्येकम् मन्त्रराजम् न वाक्षरम् स्तोत्रपादम् प्रतिदिनम् निशीथिन्याम् विशेषतः एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम् सहस्रम् प्रचपे द्वात्रौ सोऽभीष्टम् क्षिप्रमाप्नुयाद समाप्य शोभनदिने सम्भोध्य द्विजशतमान् कुम्भोदगेन कर्तारमभिषिञ्चन्मनुं जवेद कर्ता दुदक्षिणां दद्यात् पुष्कलां तोषहे दवे गुरौ तुष्टे ददाधीष्ठं कृदवीर्य सुतो नृपः गुर्वाज्ञया स्वयं गुर्याद्यदि वा कारयेद्गुरुः तत्त्वाधनादिकं तस्मै दीपदानाय नारद गुर्वात्न्यामन्दरा दीपं स्वेष्टसिद्धये सिद्धिर्न हानिरेव पदे पदे उत्तमं गोकृतं प्रोक्त मध्यमम् महर्षीभवं तिलतैलं तु तादृक्स्यात् कनीयो जातिजं कृतम् आस्य रोगे सुगन्धेन दद्यातैलेन दीपकं सिद्ध्वार्धसम्भवेनाधद्विषदां नाशयाय नाशनाय च सहस्रेण बलैर्दीपे विहिते च न दृश्यते कार्यसिद्धस्तदा कुर्यास्त्रिवारं त्रि दीपजं विद्धिं तदा सुदर्भ तदा सुदुर्लभमभिकार्यंसि त्वेन्न संशयः दिवप्रियकार्तवीर्यो मार्तण्डो नदीवल्लभः स्तुतिप्रो यो महाविष्णुर्गणेशस्तपर्णप्रियः दुर्गार्चनप्रिया नूनमभिषेकप्रियशिवः तस्मात् तेषां प्रतोषाय विदध्या सप्तदाधराद इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्द्रदीपकथनं नाम षट्सप्ततितमोऽध्यायः ओम्